श्रीहरये नमः अतश्चतुस्सप्ततितमोऽध्यायः श्रीसुक उवाच एवं युधिष्ठिरो राजा जरासन्तवधं विभोः कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस्तमब्रवीत् युधिष्ठिर उवाच ये स्युत्रैलोक्यगुरवः सर्वे लोकमहेश्वराः वहन्ति दुर्लभं लब्ध्वा शिरसैवानुशासनं स भवानरविन्दाक्षोधीनाम् ईशमानिना तद्धेऽनुशासनं भूमंस्तदत्यन्तविडम्बनं न ह्येकस्य अद्वितीयस्य ब्रह्मणः परमात्मनः कर्मभिर्वर्धते तेजो ह्रस्सते च यतारवेहे न वै तेजितभक्ता नाम अहमिति त्वं तवेदि च श्रीसुख उवाच इत्युक्त्वा यज्ञिये काले वव्रे युक्तान् सरुत्विजः कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः द्वैपायनो भरद्वाजस्सुमन्तुर्गौतमोऽसितः वसिष्ठश्रवणकण्त्रेयक् कवशस्त्रतः विश्वामित्रो वामदेव सुमतिर्जैमिनि क्रतुः पैलः पराशरो गर्गो वैशम्पायन एव धौम्यो रामो भार्गव आसुरीः भीतिहोत्रो मधुश्चन्द वीरसेनो क्रतव्रणः उपहूतास्तथा चान्ये द्रोणभीष्मकृपाधयः धृतराष्ट्रस्सुतो विदुरश्च महामतिः ब्राह्मणक्षत्रिया वैश्याशूद्रा यज्ञधितृक्षवः तत्रे यो सर्वराजानो राज्ञां प्रकृतयो नृपम् ततस्ते देवयजनं ब्राह्मणा स्वर्णलाङ्गलैः कृष्ट्वा तत्र यतां नायं दीक्षयाञ्चक्रिरेन्रपं हैमाखिलोपगरणावरुणस्य यथा पुरा इन्द्रातयो लोकपालाभिरिञ्च भव सगणासिद्धगन्धर्वा विद्याधरमहोरगाः मुनयो यक्षरक्षांसीकिन्नरचारणाः राजानश्च समाहूता राजपत्न्यश्च सर्वसः राजसूयं समीयोक्स्मराज्ञ पाण्डुः मेनिरे कृष्णभक्तस्य शुशूपपन्तम् अविस्मिताः अयाजयन्मकाराजं याजका देववर्चसः राजसूयेन विधिवत् प्रोचेत समिवारमि वामराः सौत्येऽहन्यवनीपालो याजकान् सतसस्पतेन् अपूजयन्महाभागान् यातवत् सुसमाहितः सदस्य अग्र्यार्हणार्हं वैविम्रसन्तसभासदः नाद्य ग अनेकान्त्यात्सह देवस्तदाब्रवीत् अर्हति ह्यच्छुतः श्रैष्ठ्यं भगवान् सात्वतां पतिः एष वै देवताः सर्वादेशकालधनादयः यथात्मकमितं विश्वं क्रतवश्च यथात्मकाः अग्निराहूतयो मन्त्रा साङ्ख्यं योगश्च यत्परः एक एव द्वितीयो सा वैतधां यमिदं जगत् आत्मनात्माश्रयः विविधानीकर्माणि जनयन्यदपेक्षया ईहते यदयं सर्वश्रेयो धर्मातिलक्षणं तस्मात् कृष्णाय महते दीयतां परमार्हणम् एवं चेत् सर्वभूतानाम् आत्मनश्चार्हणं भवेत् सर्वभूतात्मभूताय कृष्णायान्नन्यदर्शिने देयं शान्ताय पूर्णाय दत्तस्यानन्त्यमिच्छताम् इत्युक्त्वा सखदेवो भू तूष्णीं कृष्णानुभाववेत् तच्छ्रुत्वा तुष्टुवुः सर्वे साधु साद्विति सत्तमाः श्रुत्वा द्विचेरितं राजा ज्ञात्वा हार्दं सभासदान् समर्हयत् ऋषि केशं प्रीतप्रणय विह्वलहा तत्पाधा भव निप वसो वसोभिः पीतकौशेयैर्भूषणश्च महाधनैः अर्हयित्वाशुपूर्णाशो नासकत् समवेक्षितुम् इत्तं सभाजितं वीक्ष सर्वे प्राञ्जलयो जनाः नमो जयेति नेमस्तं निपेतुः पुष्पवृष्टयः इत्तं निसंयधमघोषसुत स्वपीठात् उत्थाय कृष्णगुणवर्णनजातमन्युः उत्क्षिप्य भाकुमितमाखसतस्य मर्षि संश्रावयन् इति सत्यवति श्रुतिः बालवाक्यैर्विभिद्यते यूयम् पात्रविधाम् श्रेष्ठा मामन्ध्वम् बालभाषितम् सदसस्पतयः सर्वे कृष्णो यत्सम्मतोर्हणे तपोविद्याव्रतधारान् ज्ञानविध्वस्तकल्मषान् परमर्षीन् ब्रह्मनिष्ठान् लोकपालैश्च पूजितान् सतस्पतीनधिक्रम्य गोपालकुलपांसनः यथा काकः का सपर्यां कथमर्हति वर्णाश्रमकुलापेतः सर्वधर्म बहिष्कृतः स्वैरवर्ति गुणैर्हेण सपर्यां कथमर्हति ययाति सप्तं षद्भेर्बहिष्कृतं वृथापानरतं शश्वत् सपर्यां कथमर्हते ब्रह्मर्षि सेवितां देशान् हित्वैते त्वैते वर्चसं समुद्रं दुर्गमाश्रित्य बाधन्ते धस्यवः प्रजाः ये वामाधीन्य भद्राणि बभाषे नष्टमङ्गळः नोवाच किञ्चिद् भगवान् यथा सिंह भगवन् निन्दनं श्रुत्वा दुःसहं तत्सभासदः करुणोऽपिधाय निर्जग्मो सपन्तश्चेति निन्दां भगवतः शृण्वन्स्तत्परस्त्य ततो नापैति यः सोऽपि यात्यधः शुक्रुधाश्च्युतः ततः स्तुः शिशुपाला जिहांसवः ततश्चैत्यस्त्व सम्भ्रान्तो जगृहे खड्गचर्मणि बत्सयन् कृष्णभक्षीयान् राज्ञः सतसि भारत तावदुद्धाय भगवान् स्वान्निवार्य स्वयं वृषां शिरश्शुरान्तचक्रेण जकारापततो रिपोः शिशुपाले हते महान् तस्यानुयायिनो भौमा धृ ध्रुवुर्जीवितैक्षिणः चैत्यद्देहोत्थितं ज्योतिर्वासुदेवमुपाविशत् पश्यतां सर्वभूतानाम् उल्के वुविकाच्युतां जन्मत्रयानुगुणितवैरसंरब्धयाधिया ध्यान्यस्तन्मयतां यातो भावो हि भवकारणं हृद्विभ्यः ससदस्येभ्यो दक्षिणात् विपुलामताद् सर्वान् सम्पूज्य वितिवच्चक्रेऽवभ्रुतमेकरात् साधयित्वा राज्ञ कृष्णो योगेश्वरेश्वरः उवाच कतिचिन्मासान् सुहृद्भिरभियाचितः ततोऽनुज्ञाप्य राजानम् अदैच्छन्तम् अपीश्वरः ययौ स भार्यसामात्यस्वपुरं देवकीसुतः वर्णितं तदुवाख्यानं मया ते बहुविस्तरं वैकुण्ठवासिनोर्जन्म विप्रसापात् स्नातो राजा युधिष्ठिरः ब्रह्मक्षत्रसभामध्ये शिशुभे सुरराडिव राज्ञा सभाजिता सर्वे सुरमानवकेचराः कृष्णं क्रतुं च संसन्तः स्वधामा निययोर्मुदा दुर्योधनं ऋते पापं कलिं कुरुकुलामयं यो स्पीतां सेहे दृष्ट्वा पाण्डुसुतस्यताम् यगितं कीर्तयेत् विष्णोः कर्मचैद्यवधादिकं राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते इति श्रीमद्भगवते महापुराणे दशमस्कन्ते उत्तरार्दे शिशुपालाभो नाम चतुःसप्ततिमोऽध्यायः सर्वत्र गोपिका गोविन्दा, गोविन्द सद्गुरुनाथमहराज की जय